षनर्थ महाराजा कच्चिते पृष्ठतृताद्राल क्रोधो मदव दीर्घ परिशम्पायनवाच ततः कुरूणाम् वृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसप्तमस्य प्रणम्यपादावभिवद्यतुष्टो राजा ब्रवी नारदम् देवरूपम् युधिष्ठिरवाच एवम् करिष्यामि यथा त्वयोक्तम् प्रज्ञाहि मे भूय एवाभिवृद्धा उक्त्वा तथा चैव राजा लेभे महिंसागरमेखलाम् च नारदवाच एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे सविहृत्येह सुखी शक्रस्य इति स लोकताम् इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि नारदप्रश्नमुखेन राजधर्मानुशासने पंचमोध्यायः।